सोमस्य तु सुतो वर्चावर्चस्वीयेन जायते मनोहराया शिशिरः प्राणोऽथ रमणस्तथा अह्नः सुतस्तथा ज्योतिः मुनिः अग्नेः पुत्रः कुमारस्तु श्रीमाच्छरवणालयः तस्य शाखो नैगमेयश्च पृष्ठजः कृत्तिकाभ्युपपत्तेश्च कार्तिकेय इति स्मृतः अनिलस्य शिवाभार्या भार्या तस्याः पुत्रो मनोजवः अविज्ञातगतिश्चैव द्वौ पुत्रावनिलस्य तु प्रत्यूषस्य विदुःपुत्रम् ऋषिम् नाम्नाथ देवलम् द्वौ पुत्रौ देवलस्यापि क्षमावन्तौ मनीषिणौ बृहस्पतेऽस्तु भगिनी वरस्त्री ब्रह्मवादिनी योगसक्ता जगत्कृत्स्नमसक्ता विचचारः प्रभासस्य तु भार्यासा वसूनामष्टमस्य विश्वकर्मा महाभागो जज्ञे शिल्प प्रजापतिः कर्ता शिल्पसहस्राणां त्रिदशानाञ्च वर्धकिः भूषणानाञ्च सर्वेषां कर्ता शिल्पवतां वरः यो दिव्यानि विमानानि त्रिदशानाम् च कारः मनुष्यश्च